आरुषी तु मनोः कन्या तस्य पत्नीमनीषिणः और्वस्तस्याम् समभवद् ऊरुम् भित्त्वा महायशाः महातेजा महावीर्यो बाल एव गुणैर्युतः रुचीकस्तस्य पुत्रस्तु जमदग्निस्ततोऽभवत् जमदग्नेस्तु चत्वार आसन् पुत्रा महात्मनः रामस्तेषाम् जघन्यो भूदजघन्यैर्गुणैर्युतः सर्वशस्त्रेषु कुशलक्षत्रियान्तकरो वशी और्वस्यासीत्पुत्रशतम् जमदग्निपुरोगमम् तेषाम् पुत्रसहस्राणि जम बभूर्भुविविस्तरः गौपुत्रौ ब्रह्मण स्वन्तिषति लक्षण लोके धाता तथितौ मनुना सह